श्रीहरये नमः अत त्रयोदशोऽध्यायः श्रीशुक उवाच मनुर्विवस्वतः पुत्र श्राद्धदेव इति श्रुतः सप्तमो वर्तमानो यस्तदपद्यानिमे शृणो इश्वाकुर्नबकश्चैव दृष्टः नरिष्यं तोतनाभाग सप्तमोदिष्ट उच्यते करुषश्च पृषद्रश्च दसमो वस मान् स्मृतः मनो दशपुत्राः परन्तपम् आदित्या वससो रुद्रा अश्विनौ ऋषभो रा ऋषभवो राजन् इन्द्रस्तेषां पुरन्दरः कश्यपोत्रिर्वसिष्ठश्च विश्वामित्रो गौतमः जमदग्निर्भरद्वाज इति सप्तर्षयस्मृताः अत्रापि भगवज्जन्म कश्यपात अधितेरभूत् आदित्या नामवरजो विष्णोर्वामनरूपधृग् संक्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते भविष्याण्यत वक्ष्यामि विष्णो सत्यान्वितानि च विश्वकर्मसुते उभे संज्ञा ये प्रागभिहि ते तव तृतीयां वढवामेके दासां संज्ञातु धाश्रयः यमो यमी श्राद्धदेव छायायाश्च सुतांशृणु सावर्णिस्तपति कन्यां भार्यासंवरणस्य यां शनैश्चरस्तृतीयोऽभूत् अश्विनो वढवात्मज अष्टमेन्तर आयाते शावा निर्भविता मनुः निर्मोहविरजस्काध्या शा वर्णितनया नृप सत्र देवासु तपसो विरोचन सुधो बलिरिन्द्रो भविष्यति तत्वे मां याचमानाय विष्णवे यः पदत्रयं राधम् इन्द्रपदं हित्वा ततश्चिद्धिमवाप्यस् ततश्चिद्धिमवाप्स्यति योऽसौ भगवता भद्र प्रीतेन सुतले सुतलेः पुनः निवेशितोदिके स्वर्गात, अधुनास्ते श् कालभो दीप्तिमान् रामो द्रोणपुत्रकृपस्तथा ऋष्यशृङ्गपितास्माकं भगवान् भातरायणः इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः इदानीमासते राजन् स्वे देवगुह्यात् सरस्वत्यां सार्वभौमयि प्रभो स्थानं पुरन्धरात् हृत्वा भलये दास्यतीश्वरः नवमो दशसावर्णेर्मनोर्वसम्भवः भूतकेतुर्दीप्तकेतो यास्त्यास्तत्सुता नृप पारामरीचिगर्भाद्या देवा इन्द्रोद्भुतः स्मृतः द्युतिमत्प्रमुखास्तत्र भविष्यन्ति ऋषयस्ततः आयुष्मतोऽम्बुधारायां वृषभो दसमो ब्रह्मसावर्णे रूपश्लोकसुतो महान् तत्सुता भूरिषेणाद्या अविष्मत्प्रमुखा द्विजाः अविष्मान्सुकृतिस्सत्यो जयो मूर्तिस्तथा द्विजाः सुवासनवृद्धाद्या देवः शम्भुः सुरेश्वरः विश्वक्षे तु शम्भु करिष्यति जातः स्वांसेन भगवान् गृहे विश्वसृजो विभुः मनोर्वै धर्मसावर्णेर्येकादशम आत्मवान् अनागता तत्सुताश्च सत्यधर्माधयोदश विगङ्गमा कामघमा निर्वाणरुचयः इन्द्रश्च वैद्रुतश्चे ऋषयश्च अरुणाधयः आर्यकस्य सुधस्तत्र धर्मसेतुरिति स्मृतः वैधृतायां हरेरंसस्त्रिलोकीं धारयिष्यति भविता रुद्रसावर्णीं राजन्द्वादशमो मनुः देववान् उपदेवश्च देवश्रेष्ठाधयः रुतधामा च तत्र इन्द्रो देवाश्च हरिताधयः ऋषयश्च तपोमूर्धे तपस्वी आग्नित्रगाधयः स्वधामाख्यो हरेरं स साधयिष्यति तन्मनोः अन्तरं सत्यसख सूनृता या सुतो विभुः मनुस्त्रयोदसो भाव्यो देवसावर्णिरात्मवान् चित्रसेन विचित्राध्या देवसावर्णिदेहजाहा देवासु कर्मसुत्रा संज्ञा इन्द्रो निर्मोकतत्त्वदर्शाद्या भविष्यन्ति ऋषयस्तधा देवहोत्रस्य तनय उपहर्ता दिवस्पतेः योगेश्वरो बृहत्यां सम्भविष्यति मनुर्वायि इन्द्रसावर्णेश्चतुर्दशमयेष्यते गुरुगम्भीरबुद्ध्याध्या इन्द्रसावर्णिवीर्यजा पवित्रा साक्षुषा देवा भविष्यते अग्निर्भाहुशुचिः शुद्धो माधधाध्या तपस्विनः सत्रायणस्य तनयो बृहद्भानुस्तधा हरिः वितानायां मकाराज क्रिया तन्तून्वितायिता राजन् चतुर्दशयितानि त्रिकालानुगतानि ते प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः इति श्रीमद्भागवते महापुराणे अष्टमस्कन्दे मन्वन्त्रानुवर्णनं नाम त्रयोदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथ महाराज जय